अथाधिककशतम सर्ग अथ संस्यामा सतल राघव तदा अजान किं वीरमेन मनुवर्तसे विसृजास्म धास्त्र पैतामह प्रभो विनाशकाल कथित यु जग्राहसशरम् दीप्तं निःश्वसन्तमिवो रगम् यम् तस्मै प्रथमम् प्रादादगस्त्यो भगवान् ऋषिः ब्रह्म दत्तम् महद्बाणमोघम् युधि वीर्यवान् ब्रह्मणा निर्मितं पूर्वमिन्द्रार्थममितौ जसा दत्तम् सुरपतेः पूर्वम् का यस्य वाजेषु पवनः पावकभास्करौ शरीरमाकाशमयम् गौरवे मेरुमन्दरौ जाज्वल्यमाणम् वपुषा सुपुङ्खम् हेमभूषितम् तेजसा सर्वभूतानाम् कृतम् भास्करवर्चसम् सदूरमिव कालाग्निम् दीप्तमाशीविषोपमम् नरनागाश्ववृन्दानाम् भेदनम् क्षिप्रकारिणम् द्वाराणाम् परिघाणाम् च गिरीणाम् चापि भेदनम् नानारुधिरदिग्धाङ्गम् मेदोदिग्धम् सुदारुणम् वज्रसारम् महानादम् नाना समिति दारुणम् सर्ववित्रासनम् भीमम् श्वसन्तमिव पन्नगम् कङ्कगृध्रपकानाम् च गोमायुगण रक्षसा नित्यभक्षप्रदम् युद्धे यमरूपम् भयावहम् नन्दनम् रक्षसामवसादनम् वाजितम् विविधैर्वाजैश्चारुचित्रैर्गरुत्मतः तमुत्तमेषु लोकानामिक्ष्वाकुभयनाशनम् द्विषताम् कीर्तिहरणम् प्रहर्षकरमात्मनः अभिमन्त्र्य ततो रामस्तम् महेषुम् महाबलः वेद प्रोक्तेन तस्मिन् सन्धीयमाने सर्वभूतानि संत्रे सुश्च चालचव सुन्धरा स रावणाय सङ्क्रुद्धो भृशमायम्यकार्मुकम् चिक्षेपरमाय तः शरम् मर्म विदारणम् स वज्र इव वज्रिबाहुविसर्जितः कृतान्त इव चावार्योऽन्यप तद्रावणोरसि बिभेदहृदयम् तस्य रावणस्य दुरात्मनः रुधिरा वेगेन शरीरान्तकरः शरः रावणस्य हरन् प्राणान् विवेश धरणीतलम् सशरो रावणम् हत्वा रुधिरार्द्रकृतच्छविः कृतकर्माणि भृतवत् स तूणीम् पुनराविशत् तस्य हस्ताद्धतस्याशुकार्मुकम् तत्ससायकम् निपपातसः प्राणैर्भ्रश्यमानस्य जीवितात् गतासुर्भीमभेगस्तु नैररतेन्द्रो महाद्युतिः पपातस्यन्दनाद् भूमौ वृत्रो वज्रहतो यथा तम् दृष्ट्वा पतितम् भूमौ हतशेषा निशाचराः हतनाथाभयत्रस्ताः सर्वतः सम्प्रदु दृगुः नर्दम् तश्चाभिपेतुस्तान् वानरा दशग्रीवववधम् दृष्ट्वा वाणराजितकाशिनः अर्दिता वानरैर्हृष्टैर्लङ्कामभ्यपतम् भयात् हताश्रयत्वात् करुणैर्बाष्पप्रस्रवणैर्मुखैः ततोऽभिनेदुः संहृष्टा वाणराजितकाशिनः वदन्तो राघवजयम् रावणस्य च तद्वधम् अथान्तरिक्षे व्यनदत् सौम्यस्त्रिदशदुन्दुभिः दिव्यगन्धवहस्तत्र मारुतः सुखो ववौ निपपातान्तरिक्षाच्च पुष्पवृष्टिस्तदा भुवि किरन्ती राघवरथम् दुरावाप मनोहर राघवस्तव संयुक्ता गगने च विशुश्रुवे साधु साध्विति वाग्र्या देवतानाम् महात्मनाम् आविवेश महान् हर्षो देवानाम् चारणैः सह रावणे निहते रौद्रेलोक भयंक तत स काम सुग्रीव विभीषणं चकार राघव प्रीतो तो हवा राक्षस पुंगव तत प्रजग्म प्रशम् मरदगणा दिश नभो नभोभव मही चकंपेण चरु बवौ स्थि प्रभश्चाप्यभवदिवाक ततस्तु सुग्रीव विभीषणांगदा सुहृद्विशिष्टाः सह लक्ष्मणस्तदा समेत्य हृष्टा विजयेन राघवम् रणेऽभिरामम् विधिनाभ्यपूजयन् स तु निहतरिपु स्थिर प्रतिज्ञ स्व जन बलाभिवृतो रणे बभूव रघुकुल नृपणम् महेन्द्रः शे श्रीमद्राणे आदिकाव्ये युद्धकांडे अष्टाधिक